भगवद्गीता चाप्टर् एन् वर्ष वन् टु टेन् अथ अष्टदशोऽध्यायः अर्जुन उवाच संन्यासस्य महाबाहो सत्त्वमिच्छा निवेदितुं यागस्य च कृषिके च पृथक्के निषूदना श्रीभगवानुवाच काम्यानाम् कर्मणा न्यासम् सन्न्यासम् कवयो विदुः सर्वकर्मबलत्यागम् प्राहुत्यागम् विचक्षणाः त्याज्यम् दोषवदित्येगे कर्म प्राहुर्मनीषिणः यज्ञदानकपः कर्म न त्याज्यमिति निश्चयं शृणुमे तत्र त्यागे भरतसप्तमा त्यागो हि पुरुषव्याक्रस्त्रिविधसम्प्रकीर्तितः यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् यज्ञो पावनानि मनीषिणाम् एतान्यपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च कर्तव्यानि मे पार्थनिश्चिदम् मदमुत्तमम् नियतस्य तु सन्न्यासकर्मणो नोपपद्यते मोह कस्य परित्याग कामसस्तैः दुःखमित्येव यत्कर्म काय क्लेशभया त्यजे स कृत्वा नैव त्यागफलम् लभे कार्यमित्येव यत्कर्म नियतम् क्रियते अर्जुन सङ्घम् त्यक्त्वा फलम् चैव सत्यागसाति गो मदः न द्वेष्ट्यकुशलम् कर्म कुशलेनानुषज्जते त्यागी सत्त्वसमाविष्टो मेधावीच्छिन्नसंशयः भगवद्गीताश्चाप्तै वस्तु प्लवन्ति त्वे सभृता शक्यं त्यक्तुम् कर्माण्यचेशतः यत्तु कर्मफलत्यागी सत्यागीत्यभिधीयते अनिष्टमिष्टमिश्रं च त्रिविधं कर्मणः फलम् भवत्यत्यागिनां प्रयत्य न तु सन्न्यासिनां क्वचित् पञ्चैतानि महाबाहो कारणानि निबोधने साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् अधिष्ठानम् तथा कर्ता करणम् च पृथग्विधम् दिविदा च पृथक् चेष्टा दैवम् चैवात्र पञ्चमम् शरीरवाङ्मनोभिर्यकर्मप्रभदे नरः न्यायम् वा विपरीतं वा पञ्चैते तस्य हेतवः तत्रैवं सदिकर्तारमात्मानम् केवलं तु यः पश्यत्यदृतबुद्धित्वात् न स पश्यति दुम्मतिः हत्वा पितमां योगा न सन्धिन निबध्यते ज्ञानं हेयं परिज्ञादा त्रिविधा कर्म चोधना करणं कर्म कर्ते त्रिविधकर्म सङ्ग्रहः ज्ञानं कर्म च कर्ता च गुणभेदतः गुणसंख्याने यथावशृणुतान्यपि सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्त्रं विभक्त्रेषु तत् ज्ञानं विद्धितास्मिदम् भगवद्गीता चाप्टर् एटीन् वर्षस् ट्वेन्टि वन् टु तर्टि पृथक्त्वेन तु यत् ज्ञानं नानाभावान् पृथग्विधान् वेति सर्वेषु भूदेषु तत् ज्ञानं विद्धिराजसम् यत्तु कृष्णवदेकस्मिन् कार्ये सप्तमहैदुगम् अधत्वार्थवदल्पञ्चतत्तामसमुदाहृतम् नियतं सङ्गरहितमरागद्वेषदकृतम् अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते यत्तु कामेऽप्सुना कर्म साकङ्कारेण वा अनुबन्धं क्षयं हिंसामनवेक्ष्यज पौरुषं मोहादारभ्यते कर्म यत्त कामसमुच्यते मुक्तसङ्गोनसंवादी धृत्युत्साहसमन्वितः का राज्ञी कर्म हिंसात्मगो शुचिः हर्षशोकन्यदः कर्ता राजसः परिकीर्तितः अयुक्तः प्राहृदस्तब्धशतो नैष्कृति गोलसः विषादिदीर्घसूत्री च कर्ता तामस उच्यते बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु प्रोच्यमानमशेषेण पृथक्त्वेन धनं चया प्रवृत्तिं काये भयाबये च कार्या बन्धं मोक्षं वेत्ति बुद्धिः सपार्थ भगवद्गीता चाप्टर् एय्टीन् वर्षस् तर्टी वन् टु फोर्टि यया धर्ममधर्मं च कार्यं चाकार्यमेव च अयथावत्प्रजानादिबुद्धिस्सा पार्थराजसी अधर्मं धर्ममिधिया मन्यते तमसा वृदा सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थतामसी धृत्या यया धारयदे मनःप्राणेन्द्रियक्रियाः योगेना व्यभिचारिण्या धृतिस्सा पार्थसात्विकी यया तु धर्मकामार्धान्धृत्या धारयदे अर्जुना प्रसङ्गेन बलाकाङ्क्षी धृतिस्सा पार्थराजसी यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्जति दुर्मेधा धृतिस्सा पार्थतामसी सुखं द्विदानीं त्रिविधं शृणु मे अभ्यासाद्रमदे यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमम् तत्सुगं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् विषयेन्द्रियसंयोगाद्यत्तदग्रे मृतोपमम् परिणामे विषमिव तत्सुखं राजसंस्कृतम् यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्य प्रमादोद्धं तत्तामसमुदाहृदम् न ददस्ति पृथिव्यां वा दिवि वा पुनः सत्त्वं प्रकृतिजायैर्मोक्रं यदेभि स्यात्भिर्गुणैः भगवद्गीता चाप्टर् एटीन् वर्षस् फोर्टि वन् टु फिफ्टी ब्राह्मणक्षत्रियविषां शूद्राणां च परन्तपर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः शमो शमोद्धमस्तपश्चौजं क्षान्धिरार्जवमेव ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्मस्वभावजं शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् दानमीश्वरभावश्च क्षास्त्रं कर्मस्वभावजं, कृषिगौ रक्ष्यवाणिज्यं वैश्यकर्मस्वभावजं परिचर्यात्मकं कर्म शूद्रस्याभिस्वभावजं स्वे लभते नरः स्वकर्मनिरधसिद्धिं यदा विन्दति यदप्रवृत्तिर्भूतानां येन सर्वमिदं तदं स्वकर्मणास्तमभ्यर्च्य सिद्धिं विन्दति मानवः श्रेयान्स्वधर्मो विगुणपरधर्मात् स्वनुष्ठिदात् स्वभावमि यदं कर्म कुर्वन्नाप्नो दिशिल्दृशम् सहजं कर्म कौन्तेयसदोषमभिन त्यजेत् सर्वारम्भागिदोषेण धूमेनाग्निरिवावृताः बुद्धि सर्वत्र जिदात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति सिद्धिं प्राप्तो यदा ब्रह्म तदाप्नोति निबोधमे समासेनैव सौन्दर्यनिष्ठाज्ञानस्य या यापरा भगवद्गीता चाप्टर् एय्टीन् वर्षस् फिफ्टि वन् टु बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विवित्रसेवी लक्वाशीयदवा कायमानसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः अहङ्कारं बलं दर्पं कामं क्रोधं परिघ्रतम् विमुच्य निर्ममशन्दो ब्रह्मभूयाय कल्पदे ब्रह्मभूदप्रसन्नात्मा न शोच सर्वेषु भूतेषु मद्भक्रिं लभदे पराम् भक्र्या मामभिजानादि यावान् यश्चास्मि तत्त्वतः ततो मां तत्त्वदो ज्ञात्वा विशदेतदनन्तरम् सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यभाश्रयः मत्प्रसादादवाप्नो दिशाश्वतं पदमव्ययम् चेदसा सर्वकर्माणि मयि संन्यस्य मत्परः बुद्धियोगमुदाश्रित्य मच्चित्तः सददम्भव मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् विद्यषंव्यवसायस्ते प्रदृभित्वां नियोक्ष्यति स्वभावजेन कौण्डेयनिबद्धस्येन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यस्य वशोभितत् भगवद्गीता चाप्टर् एय्टीन् वर्षस् सिक्स्टी वन् टु ईश्वरः सर्वभूतानां कृते अर्जुनतिष्ठति भ्रामयन् सर्वभूतानि यन्द्रारूढानि मायया तमेव शरणं गच्छ सर्वभावेन भारद तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया विमृश्यैतदशेषेण यथेच्छसि तथा कुरु सर्वगुह्यतमम्भूय शृणु मे परमं वचः इष्टोऽसि मे धृतमिति ततो वक्ष्यामि ते मन्मना भवमद्भक्त्रो मद्या नमस्कुरु मामे मे वैष्यसि सत्यं ते प्रति जाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेघं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इदं ते नातपस्काय नाभक्ताय कदाचन न चाशुश्रूषवेवाच्यं न च मां योऽभ्यसूयदि य परमं गोह्यं मद्भक्तेष्वभिधास्यदि भक्तिं मयि परां कृत्वा मामे वैश्यत्यसंशयः नचतस्मान् च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च प्रियतरो भुवि अद्येष्यते च य इमं धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहमिष्ठस्यामिति मे मधी भगवद्गीता चाप्टर् एय्टीन् वर्ष् सेवेण्टि वन् टु सेवेण्टि एय्ट् श्रद्धावाननसूयश्च शृणुयादभियो नरः सोऽविमुक्तस्युभां लोगान् प्राप्नुयात् पुण्यकर्मणां कच्चितेतच्छुतं पार्थ त्वयैकाग्रेण चेदसा कच्चिदज्ञानसम्मोहप्रनष्टश्चेधनञ्जय अर्जुन नष्टो मोह स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युदा स्थितोऽस्मि दधसन्देहकरिष्ये वचनं तव सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य महात्मनः संवादमिममश्रौषमद्भुतं रोमहर्षणम् व्यासप्रसादाश्रुतवानेदद्गुह्यमहं परं योगं योगेश्वर तृष्णासाक्षात् कथयतः स्वयम् राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतं केशवार्जुनयोः पुण्यं करिष्यामि तच्च संस्मृत्य संस्कृत्य रूपमत्यद्भुतं हरेः विश्वयो मे महान् राजन् कृष्यामि च पुनः पुनः यत्र योगेश्वरकृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूदिर्ध्रुवाणी धर्म स इति श्रीमद्भगवद्गीतासु अष्टादशोऽध्यायः